श्रीहरये नमः अथ षष्ठोऽध्याय ऋषिर्वाच इति तासां स्वशक्तीनां सतीनामसमेत्य सः प्रसुप्तलोकतन्त्राणां निशां यगतिमीश्वरः कालः संज्ञां तधा देवीं विप्रश्चक्तिमुरुग्रमः त्रयोविंशतितत्त्वानां गणं युगपधाविसत् सोनुप्रविष्टो भगवान् श्रेष्ठारूपेण तं गणम् भिन्नं संयोजयामास सोप्तं कर्म प्रबोधयन् प्रबुद्धकर्मा दैवेन त्रयोविंसति गोगणः प्रेरितो जनयत् स्वाभिर्मात्राभि अतिपूरुषम् परेण विसता स्वस्मिन् मात्रयाँ विश्वश्रुग्गणः सुशोभान्योन्यम् असाध्य यस्मिन् लोकाश्चराचरान् हिरण्मयः सप्पुरुषः सहस्रपरिवत्सरान् औण्डगोस उवासाप्सो सर्वसत्त्वो भबृंहितः स वै गर्भो देवकर्मात्मशक्तिमान् विभभाजात्मनात्मानां ये गता दशतादृधा येष ख्ये शेषसत्त्वानामात्मान् स परमात्मनः आद्योऽवतारो यत्रा सौ बोधक्रामो विभाव्यते साध्यात्मसाधिदैवश्च साधिभूत इति त्रधा हृदयेन च स्मरन् विश्वश्रु जामीशो विज्ञापितम् अधोक्षजः विचारमतपत्स्वेन तेजसैषाम् विवृद्धयेन् अतस्तस्याभितप्तस्य गतिश्चायधानिः निरभिद्यन्तदेवानां तानि मे गततः तस्याग्निरास्यं निर्भिन्नं लोकपालो विसत्पधं। वाचस्वांसेन वक्तव्यं ययासो प्रतिपद्यते निर्भिन्नं तालुवरुणो लोकपालो विशत् हरेः जिह्यांसे न च रसं ययासौ प्रतिबद्यते निर्भिन्ने अश्विनौ विष्णोराविसतां पदम् घ्राणीनां सेनगन्तस्य प्रतिभक्तिर्यथो भवेत् निर्भिन्न अक्षिणी त्वष्टा लोकपालो विसद्विभोः चक्षुक्षां सेनरूपाणां प्रतिभक्तिर्यथो भवेत् निर्भिन्नान्यस्य चर्माणि लोकपालो निलो विसत् प्राणीनां सेनसंस्पर्श येनासौ प्रतिबध्यते कर्णावस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविसुर्दिशः श्रोत्रेणांसेन शब्दस्य सिद्धिं येन प्रभध्यते ध्वसमस्य विनिर्भिन्नं विविशोर्दिष्ण्यमोक्षधीहे अंसेन रोमभिघण्टों यैरसौ प्रतिबध्यते मेढ्रं तस्य विनिर्भिन्नं स्वदिष्ण्यं कबुपाविशत् रेतसांसेन येन सावनन्दं प्रतिबध्यते गुथं पुंसो विनिर्भिन्नं मित्रोष्य लोके स वायुनां सेन येनासौ विसर्गं प्रतिबध्यते हस्तावस्य विनिर्भिन्ना विन्द्रस्वर्पदिराविशत् वार्त्यां सेन पुरुषो यया वृत्तिं पाधावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् गद्या स्वांसेन पुरुषो यया प्राप्यं प्रभद्यते बुद्धिं चास्य विनिर्भिन्नं वागीशोदिष्ण्यमाविशत् भूतेनांसेन बोद्धव्य प्रतिभत्तिर्यथो भवेत् हृदयं चास्य निर्भिन्नं चन्द्रमातिश्यमाविशत् मनस्सांसेन येनासौ विक्रियां प्रतिपद्यते आत्मानं चास्य निर्भिन्नम् अभिमानो विशद्पथं कर्मणांसेन येनासौ कर्तव्यं प्रतिपद्यते सत्त्वं सास्य विनिर्भिन्नं महान्दिष्ण्यम् उपाविशत् चित्तेनां सेन येनासौ विज्ञानं प्रतिबध्य श्रीष्णोस्य द्यौर्धराबध्याङ्कं नाभेरुदबध्यथा गुणानुवृत्तयो येषो प्रतीयन्ते सुराधया आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रभेदिरे धराम्रजस्वभावेन पणयो ये, ये च धाननु तादीर्येण स्वभावेन भगवन्नाभिम्माश्रिताः उभयोरन्तरं व्योमये रुद्रपार्षधां गणाः ब्रह्मपुरुषस्य कुरु द्वः यस्तून्मुखत्वात् वर्णाना मुख्योऽभूत् ब्राह्मणो गुरुः बाहुभ्यो वर्ततक्षत्रं क्षत्रियस्तदनुव्रतः योजास्त्रया क्षथा विशो वर्तन्त तस्योर्वार् लोकवृत्तिघरीर्विभोगो वैश्यस्तदुत्पवो वार्तां नृणां यः पद्यां भगवतो जज्ञे शुश्रुषा धर्मसिद्धये तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः एते वर्णा स्वधर्मणे यजन्ति स्वगुरुं हरिं श्रद्ध्यात्मविशुद्ध्यर्थं यज्जातास्सह वृत्तिभिः एतत्क्षत्तर्भगवतो दैवकर्मात्मरूपिणः कश्रदत्या तुपाकर्तुं योगमाया बलोधयम् अथापि कीर्तयां व्यङ्गयथामतियथाश्रुतं कीर्तिं हरे स्वां सत्कर्तुं गिरमन्याभिधासति एकान्तलाभं वचसो नुपुंसां सुश्लोकमौलेर्गुणवादमागुः श्रुतेष्य विद्वद्भेर् उपाकृतायाम् गतासुधायाम् उपसंप्रयोगं आत्मनो वसितो वत्स महिमा कविनाधिना संवत्सरः सहस्रान्ते अतो भगवतो माया मायिनामभिमोहिनी यत्स्वयं सात्मवर्तात्मा न वेत किमुता परे यतोप्राप्य न्यवर्तन्तवाचस्य मनसा सह अहं चान्य इमे देवास्तस्मै भगवते नमः इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते षष्ठोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरु महकार जय